हरि ओम् श्रीसीतारामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे षडशीतितमः सर्गः वानर रक्षसाम् युद्धम् हनुमता रक्षसैन्यस्य संहार इन्द्रजितो युद्धाय आह्वानम् च लक्ष्मणकर्तृकम् इन्द्रजितो दर्शनम् अथ तस्यामवस्थायाम् लक्ष्मणम् रावणानुजहे परेशामहितम् वाक्यम् अर्थ साधकमब्रवीत् यदेत मेघश्यामं मेघश्यामम् विलोक्यते एतदायोध्यताम् शीघ्रम् कपिभिश्च शिवायुधी तस्यानेकस्य महतो भेदेन यतलक्ष्मण राक्षसेन्द्र सुतोऽप्यत्र भिन्ने दृश्यो भविष्यति तत् त्वमिन्द्राशनि प्रक्षै शरीरव किरन् परन् वद्वै नैतत् कर्म समाप्यते जहि वीर दुरात्मानम् माया परमधार्मिकम् रावणिम् कर्माणम् सर्वलोकभयावहम् विभीषण वच श्रुत्वा लक्ष्मणशुभलक्ष्मणः स्ववर्ष शरवर्षेण राक्षसेन्द्र सुतम् प्रति वृक्षा शाखा मृगाश्चैव ध्रुम प्रवर योधिनः अभ्यधावन्त सहिता तदनीकमवस्थितम् राक्षसा च शिते बाणे अतिभिशक्तितोमरे अभ्यवर्तन्तसमरे कपि सैन्या जिघांसवः सम्प्रहारे तुमलः सञ्जज्ञे कपि रक्षसाम् शब्देन महतालङ्गाम् नारयन् वै समन्ततः शस्त्रे च विविधाकारै क्षिते बाणे च पादपै उद्यते गिरिशृङ्गे च घोरैराकाशमावृतम् राक्षसा वानरेन्द्रेषु विकृतान्न बाहवः निवेशयन्तः शस्त्राणि चक्रेषु महद्वयम् तथैव सकलै ङ्गी शृङ्गैश्च वानराः अभिजघ्नो निजघ्नुश्च समरे सर्वराक्षसान् वृक्ष वानरमुख्यैश्च महाकायै महाबलै रक्षसाम् युध्यमानानाम् महद्भयम् अदायत सम्मनीकम् विषण्णन्तु श्रुत्वा शत्रुभिरर्जितम् उत तिष्ठतरुदश्च स कर्मणि अनुष्ठिते वृक्षान्धकारान् जातक्रोध दातक्रोध स रावणिः आरुरोह रथम् सज्जम् पूर्वयुक्तम् सुसंयतम् स भीम कर्मकशरः कृष्टाञ्जनचयोपमः रक्तास्य नयनो भीमौ बभो मृत्यु युवान्तकः दृष्टैव तूर्हस्थम् तम् पर्यवर्तत दद्बलम् रक्षसाम् भीमवेगानाम् लक्ष्मणेन युयुत्सताम् तस्मिन् तु काले हनुमान् अरुजेस दुरासदं धरणीधरसङ्काशो महावृक्षम् मरिन्दम स राक्षसानाम् तत्सैन्यम् कालाग्निरिव निर्दहन् चकार बहुभि वृक्षै निश्चन्यम् युधिवानरः विध्वंसयन्तम् तरसा दृष्ट्वैव पवनात्मजम् राक्षसानाम् सहस्राणि हनुमन्तम् अवाकिरन् शितशूलधराशूलै असिभि चासि पाणयः शक्ति हताश शक्ति भी, पट्टिशे पट्टिषा परिखय कु शुभ दर्शन शतश्च शतघ्नी आयतर मुद्दे घोरे परशु बिंदी पालय चक्षसा मुष्टि भीर वज्रकल तरैयश निसन्निभै अभिजघनौ समासाद्य समन्तात्पर्वतोपमम् तेषामपि च संक्रुद्ध चकार कदनम् महत् स ददश कपि श्रेष्ठम् अचलोपममिन्द्रजी सुदमानम् मम असन्त्रस्तम् अमितान् पवनात्मजम् स सारथिम् वाचेदम् या हि यत्रैष वानरः क्षयमेव हि न कुर्यात् राक्षसानामुपेक्षितः इत्युक्तः सारथिस्तेन ययो यत्र समारुतिः वहन् परम दूर्धर्षम् स्थितम् इन्द्रजितम् रथे स्वभ्युपेत्य शरान् खड्गान् पट्टिषाश्च परश्वधान् अभ्यवर्षत दूर्धर्षः कपि मूर्धनि राक्षसः तादिशस्त्राणि घोराणि प्रतिगृह्य समारुतिः रोषेण महताविष्टो वाक्यम् चेदम् उवाचः युध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते वायुपुत्रम् समासाद्य न जीवन् बाहुभ्याम् सम्प्रयुध्यस्वे यदि मे द्वन्द्वमाहवे वेगम् सहस्व दुर्बुद्धे ततः त्वं रक्ष साम्बरः हनुमन्तम् जिघन्सन्तम् समुद्यात शरासनम् लक्ष्मणाय विभीषणः यः स वा एष रथमास्थाय हनुमन्तम् जिघांसति तम् अप, अप्रतिम संस्थाने शरैषस्तु निवारणे जीवितान्तकरे घोरै सौमित्रे रावणिम् जहि इत्येवमुक्तः स्तु तदा महात्मा विभीषणेन विभीषणेन ददर्श्य तम् पर्वतसन्निकाशम् भीमबलं भीमबलम् दुरास्रदम् इत्याशी श्रीमद् रामायणे वाल्मीकीयादिकार्य युद्धकाण्डे षडशीतितमस्सुर्ग श्रीता